हरि श्री श्रीपीता रामचन्द्राभ्यम् नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे सप्तसप्ततितमः सर्गः भरतेन पितुः श्राद्धे ब्राह्मणेभ्यो बहुधन रत्नप्रभृतीनाम् दानम् त्रयोदशे दिने अस्य सञ्चयस्य शिष्टम् कार्यम् पूरयितुम् पितुश्चिता भूमौ गत्वा भरतशत्रुघ्नयो विलापो वसिष्ठसुमन्त्राभ्याम् तयो आश्वासनञ्च ततो दशाहेति गते कृतशौचो नृपात्मजे द्वादशे निधय कर्माण्यकारयत् ब्राह्मणेभ्यो धनम् रत्नम् ददौ अन्नम् च पुष्कलम् वासासि च महाराणि रत्नानि विविधानि च वास्तिकम् च काश्चापि बहुशस्तदा दासी दासांशयानानि वैश्वानि सु महन्ति च ब्राह्मणेभ्यो दधौ पुत्रो राज्ञस्योर्ध्व दैहिकम् ततः प्रभातसमये दिवसे च त्रयोदशे विललाप मह बाहू भरतः शोकमूर्छितः शब्दापीहितकण्ठश्च चितामूले पितुर्वाक्यम् इदमह सुदुःखितः तात्र यस्मिन् त्वया भ्रातरि तस्मिन् वनम् प्रवृजिते शून्ये चक्योऽस्म्यहम् त्वया यस्य गतीयनाथाय पुत्र प्रव्राजितो वनम् तामम्बाम् तात कौसल्याम् त्यक्त्वा तम् वै गतो नृपे दृष्ट्वा वस्मा तच्च दग्धास्थिस्थानमण्डलम् पितुः शरीर निर्वाणम् निश्चन विश्वसादः स तु दृष्ट्वा पपत धरणीतले उत्थाप्यमान शक्रस्य यन्त्रध्वज इवोश्रितः अपि ते सर्वे तस्या मात्या अन्तकाले निपतितम् ययातिम् ऋषयो यथा शत्रुघ्न चापि भरतम् दृष्ट्वा शोक परिप्लुतम् विसन्यो न्यपत भूमौ भूमिपालम् अनुस्मरन् उन्मत्ता इव निश्चित्तो विललाप सुदुःखितः स्मृत्वापि तु गुणाङ्गानि तानि तानि तदा तदा मन्त्रा प्रभवस्तीव्र कैकेयी ग्राह सङ्कुलः वरदानमयो कोभ्यो रमज्जयशोकसागर सुकुमारम् च बालञ्च सततम् लालितम् त्वया क्व सात भरतम् हीत्वा विरपन्तम् गतो भवान् ननु भोजेषु पानेषु शु, वस्त्रेष्वाभरणेषु च प्रवारयति सर्वान्न तत्र तन्न कोद्य करिष्यति अवधारणकाले तु पृथिवी नावदीर्यते विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना पितरे स्वर्गम् आपन्ने रामे चारण्यमाश्रिते किम् जीवित सामर्थ्यम् प्रवेक्ष्यामि हुताशनम् हीनो भ्रात्रा च शून्याम् मिक्षा कुपालिताम् अयोध्याम् न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् तयोर्विलपितम् श्रुत्वा व्यसनम् चाप्यवेक्षत भृशम् आर्त सुराभूय सर्वैवानुगामिनः ततोषण्णो श्रान्तो च शत्रुघ्न भरतौ भर। धरायम धरायाम् स्म इवर्षभौ तथा प्रकृतिमान् वैद्य पितु एषाम् वसिष्ठो भरतम् वाक्यम् उत्थाप्यतम् तम् उवाचः त्रयोदशोऽयम् दिवसः पितुर्वृत्तस्य ते विभो सावशेषास्थीनिचये किम् इहे तम् विलम्बते त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्या विशेषतः तेषु च परिहार्येषु नैवम् भवितुमर्हसि सुमन्त्रे चापि शत्रुघ्नम् उत्थाप्याभि प्रसद्य च श्रावयामास तत्त्वज्ञ सर्वभूतभवाभवौ उत्थितौतो नरव्याघ्रौ प्रकाशेते यशस्विधौ वर्षात् परिग्लानौ पृथग् इन्द्रे ध्वजाविव अश्रूणी परिमृद्धौ रक्ताक्षोदीन भाषिणो अमत्या स्म तनयो चापुरा क्रिया इत्याश्री श्रीमद् वाल्मीकि रामायणे वाल्मीकि अधिकार्ये अयोध्याखण्डे सप्त सप्तति तमः सर्गः